नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् एण्ड् फोर्टीन् सनातन उवाच शृणु पञ्चम्यास्ते प्रधान्यहम् यानि भक्त्या समास्ताय सर्वान् कामानवाप्नुयाद पञ्चमी मधुशुक्लगा अस्याम् मत्स्यावतारार्चा भक्तै कार्यामहोत्सवा श्रीपञ्चमे चैषोक्ता तत्र कार्यं श्रियोर्चनं गन्धाद्यैरुपचारैस्तु नैवेद्यै पायसादिभिः यो लक्ष्मीं पूजयेच्छात्र तं वै लक्ष्मीर्नमुञ्चदि पृथ्वीव्रतम् तथा चान्द्रम् अयग्रीव्रतम् तथा तर्यम् तत्तद्विधानेन तत्तत्सिद्धिमपीप्सुभिः अध वैशाखपञ्चम्याम् शेषम् चाभ्यर्च्यमानवः सर्वैर्नागगणैर्युक्तमभीष्टम् लभते फलम् तथा ज्येष्ठस्य पञ्चम्यां पितृ नभ्यर्चयेत्सुधीः सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः पञ्चम्यां वायुं सर्वगदं मुने ग्रामात् बहिर्विनिर्गत्य धरोपस्थे समास्थितः ध्वचं तु पञ्च दण्डाग्रसंस्थितम् समुच्छ्रितम् निदध्यात् मध्यतः तदस्तन्मूलदेशेदु दिक्षु सर्वासुनारद लोकपालन् समभ्यर्च्य कुर्याद्वायुपरीक्षणं प्रथमादिषु यामेषु यो यो प्रवर्तते तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेद् एवं स्थित्वा निराभारस्तत्र याम चतुष्टयं सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः लोकपालान् नमस्कृत्य स्वप्याद्भूमितले शुचौ यस्वप्नो जायते तस्यां रात्रौ यामे स एव भविता नूनं स्वप्न इत्याह वै शिवः अशुभेदुसमुत्पन्नशिवपूजापरायणः सोपवासो नयेदष्ट यामं तद्दिनमेव वा भोजयित्वा द्विजानष्टौ तदशुभलं लभेद व्रतमेधसमुदिदं शुभाशुभनिदर्शनम् ृणाम् सौभाग्यजनकमिह लोके परत्रजा च श्रावणे कृष्णपञ्चम्यामृतम् ह्यन्न समृद्धितं चतुर्भ्याम् दिनशेषे तु सर्वाण्यन्यानि सर्वाण्यन्नानि नारद ना पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुभिः ततोपात्रान्तरे तत्तु निष्कास्याम्बो निधापयेद् दर्भानौ समुदिदे पितृंश्चैव तथा ऋषीन् देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रदः तदन्नं याचकेभ्यस्तु प्रयच्छेत् प्रीतिमानसः सर्वं दिनं क्षिपे देवं प्रदोषेदु शिवालये गत्वा सम्पूजयेद्देवं लिङ्गरूपिणमीश्वरम् गन्धपुष्पादिभिः सम्यक् पूजयित्वा महेश्वरं जपेत् पञ्चाक्षरी विद्यां शतं चापि सहस्रकं जपं निवेद्य देवाय भवाय भवरूपिणे स्तुत्वा सर्वैर्वौदिकैश्च पौराणैश्चाप्यनाकुलः प्रार्थयेद्देवशानं शश्वत् सर्वान्न सिद्धयेत् शारदीयानि चान्नानि तथा वा सन्ति कान्यपि यानि यानि स्युस्तैः समृद्धोऽकं भूयां जन्मनि जन्मनि एवं सम्प्रार्थ्य देवेश्वं गृहमागत्य वैश्वकं दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जितवज्ञदः एतदन्नव्रतं विप्रविधिनाचरितं नृभि सर्वान्नस्सं पञ्च सर्वान्नसम्पज्जनकम् परलोके गदिप्रदम् श्रावणे सुप्रपञ्चम्यां नृभिरास्तिक्यतत्परैः द्वारस्योभयदो लेख्या गोमयेन विशोल्बणाः गन्धाद्यै पूजयेत्तांश्च तथेन्द्राणीमनन्तरं सम्पूज्य स्वर्णरूप्यादिदध्यक्षत पुष्याम्बुभिः गन्धैः पुष्पैस्तधाूपैर्दीपैर्नैवेद्यसञ्चयैः तदप्रदक्षिणीकृत्य तद्रव्यं सम्प्रणम्यज सम्प्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्चयेद यदिदं स्वर्णरौप्यादिद्रव्यं वै विप्रसात्कृतं तदनं तत्फलं ता भूयान्मम जन्मनि जन्मनि इत्येवं ददद्वद्रव्यम् भक्तिभावेन नारदा प्रसन्नस्या धनाध्यक्षः स्वर्णादिकसमृद्धिदः यदद्व्रतम् नर कृत्वा विप्रान् सम्भोज्य भक्तितः पश्चात्त्वयम् च भुञ्जीद धारापत्य सुहृद्रुतः भाद्रे तु नागान् क्षीरेण दर्पयेद् यस्तस्यात् सप्तमम् यावत् कुलं सार्पास्तु भाद्रस्य च प्रपञ्चम्यां पूज्य ये धृशि सप्तमान् प्रादनद्याधिके स्नात्वा कृत्वा नित्यमदन् धृदः गृहमागत्य गोमये नोपलिप्याध कृत्वा पुष्पोपशोभिधम् तत्रास्तीर्य कुश्यान्विप्रऋष्यन् सप्त समर्चयेत् गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः कश्यपोत्रिर्भरद्वाजौ विश्वामित्रोद गौतमः जमदग्निर्वसिष्ठश्च सप्तैरे ऋषयस्मृताः ये तैभ्योऽज्य च विधिवत् कल्पयित्वा प्रदाय च नैवेद्यं विपचेद्विमाञ्च्यमाकाद्यैरकृष्टकैः तन्निवेद्य विसृज्येमान् स्वयं चाद्यस्तदेव हि अनेन विधिना सप्तवर्षाणि प्रतिवत्सरम् कृत्वा वृदान् देवरयेताचार्यान् सप्तवैदिकान् प्रतिमा सप्तकुर्वीत सुवर्णेन स्वशक्तितः जटिलाल्साक्षसूत्राश्च कमण्डलुसमन्विताः संस्थाप्य कलशेष्वेदां स्ताम्रेषु मृण्मयेषु वा स्नापह्य द्विधिवद्भक्त्या पृथक् पञ्चामृतैरपि उपचारैषोडशभ्येष्टदसम्भुज्यभक्तिदः अर्च्यं दत्त्वा ततो होमं तिलव्रीहि यवादिभिः सह स्तोमा ऋता नाम नन्त्रैस्तु वा पृथक् पुण्यर्मन्त्रैस्तधा तदैवान्यायित्वा पूर्णाहुतिं तदस्तु सप्तगा दद्याद्वस्त्रालङ्कारसंयुताः आचार्यम् वस्त्रालङ्कारभूषणैः अनुज्ञया गुरौ पश्चान् मूर्तिर्विप्रेषु चार्पयेद् भोजयित्वा दूतान् भक्त्या प्रणिपत्यविसर्जयेत् ततश्चैः सहसेन स्वयम् ब्राह्मणशेषिदम् भुङ्क्त्वा वै षड्रसोपेदम् प्रमुद्यात् सह यदत्कृत्वा व्रदम् गङ्गाम् भोगान् भुक्त्वा दवाञ्छेदान् सप्तर्षीणाम् प्रसादेन विमानभरगो भवेद् अश्विने शुक्लपञ्चम्यामुपाङ्ग लललिताव्रतं तस्या स्वर्णमयी मूर्तिं शक्त्या निर्माय नारद उपचार्यैषोडशभिपूजयेतां विधानतः पक्वानम्बरसंयुक्तं सकृतं दक्षिणान्वितं द्विजवर्याय दातव्यमृद सम्बुद्धिः दवे सवाहनाशक्तियुधवरदा पूजिता मया माधर्मा मनु गृह्याधगम्यतां निजमन्दिरं कार्तिके शुक्लपञ्चम्यां जया व्रतमनुत्तमं कार्तव्यं पापनाशाय श्रद्धया द्विजसत्तम पूजयित्वा जयां विप्रयथाविधिसमाहितः उपचारैषोडशभिस्तदच्छुचिरलङ्कृतः विप्रैकं भोजयेच्चापि तस्मै दत्वा जदक्षीणां विसर्जयेतदपश्चात् स्वयं भुञ्जेदवाज्ञतः यस्तु वैभक्तिसंयुक्तस्नानं कुर्या जया नश्यन्ति तस्य पापानि सिंहा मृगा यथा यतस्वमेधावभृधे फलं स्नानेन कीर्तितं तत्फलं प्राप्यते विप्रस्नानेन विजयादिने अपुत्रो लभते पुत्रं वन्ध्या गभज विन्ददि रोगीरोगात्ममुच्यत बद्धमुच्यत बन्धनाद मार्गशुक्लज पञ्चम्यां नानान्निष्ठ्वा विधानदग ना लब्ध्वा मोदते सखबान्धवैः पौषेऽपि शुक्लपञ्चम्यां सम्भूज्य मधुसूदनम् लभदेवाञ्चिदान् कामान्नात्रकार्या विचारण पञ्चम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद पितॄणां पूजनम् षष्ठम् नागानां चापि सर्वथा यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्धपादे द्वादशमासस्तपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशतमोऽध्यायः ओ